गरुडपुराणम् आचारकाण्डम् अध्यायम् वन् श्रीगणाधिपदये नमः सरस्वत्यै नमः ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ओम् अजमजरमनन्दम् ज्ञानरूपं महान्तम् शिवमल मनादिं भोधदेहादिहीनं सकलकरणहीनं सर्वभूतस्थितम् हरिमलममायम् सर्वगं वन्द एकम् नमस्यामि हरिं रुद्रम् ब्राह्मणं च गणाधिपं देवीं सरस्वतीं चैव मनो सुदम् पौराणिकम् शान्तम् सर्वशास्त्रविशारदम् विष्णुभक्तम् महात्मानम् नैमिषारण्यमागतम् तीर्थयात्राप्रसङ्गेन उपविष्टम् शुभासने ज्यायन्तम् विष्णुमनकम् तमभ्यर्च्यास्तुवन् मुनयोरविसम्भाष्या शान्ता यज्ञपरायणाः ऋषय उजुः सुदजानासि सर्वम् त्वम् पृच्छामस्त्वा मदो वयम् देवतानाम् हि को देव ईश्वरपूज्य एव कस्माद्व्रवृतदे धर्मो दुष्टहन्ता च कस्मृतः तस्य देवस्य किं रूपम् जगत्सर्गः कथम् मतः कैर्व्रतैः सदु तुष्टस्यात्केन योगेन वाप्यदे अवताराश्च केतस्य कथम् वंशादिसम्भवः वर्णाश्रमादिधर्माणाम् कर्पादाकप्रवर्तकः एतत्सर्वम् तदान्यच्च ब्रूहिसूदमहामदे नारायणकथा सर्वकथयास्माकमुत्तमाः सुद उवाच पुराणम् कारुडम् भक्ष्य सारम् विष्णुकथाश्रयम् गरुडोक्तम् पश्यपाय पुरा व्यासाच्छ्रुतम् मया नारायणो देवो न ना देवानामीश्वरेश्वरः परमात्मा परं ब्रह्म जन्माद्यस्य यदो भवेद जगदो रक्षणार्थाय वासुदेवो जरोमरः सकुमारादिरूपेण अवतारान् करोत्यजः हरिः सप्रथमं देवकौमारं स्वर्गमास्थिदः सचारदुश्चरं ब्रह्मन् ब्रह्मचर्यमखण्डितं द्वितीयं तु भवा रसा तलगदाम्महि उद्धरिष्यन्नुपादत्ते यज्ञे शौकरम् वपुः तृतीयमृषिसर्गम् तु देवश्चित्वमुपेत्य सः तन्त्रम् सात्वतमाचष्टे नैष्कर्म्यम् यतः नरनारायणो भूत्वा तुर्येते पे धर्मसंरक्षणार्थाय पूजितः स पञ्चमकपिलो नाम सिद्धेश्व कालविप्लूदम् प्रोवाच सूरये साङ्ख्यं तत्त्वग्राम विनिर्णयम् षष्टमात्रैरपत्यत्वं दत्त प्राप्तो न सूयया आन्वीक्षिकी मलर्काय प्रह्लादादित्य ऊिवान् तद सप्त आहूत्याम् रुचैर्यज्ञोऽभ्यजायदा सुत्रामाद्यै सुरगणैर्यष्ट्वा स्वयंभुवन्तरे अष्टमे मेरुदेव्यान्तुनाभिर्जाद उरुक्रमः दर्शयन् वर्त्मनायीणां सर्वाश्रम नमस्कृतं ऋषिभिर्याचिदोभेज नवमं प्रार्थिमं बभुः दुग्धैर्महौषधैर्विप्रास्तेन सञ्जीविधा प्रजाः रूपं स जगृहे माश्यम् चाक्षुषान्तरसम्प्लवे नाव्यारोप्यमही मय्यामपाद्वैवस्वदम् मनुम् सुरासुराणामुदधिम् मध्नदा मन्दराचलम् दध्रे कमडरूपेण पृष्टये कादशे विभुः धानन्तरम् द्वादशमं त्रयोदशमेव च आप्यायत्सुरान्यान्मोहिन्या मोहयस्त्रिया चतुर्दशम् नारसिंहम् चैत्यदैत्येन्द्रमूर्जितम् ददारकरजैरुग्रैरेरकाम् कडुगुद्यथा पञ्चदशम् वामनको भूत्वा गाध्वरम् बलेः पादत्रयम् व्याजमानप्रत्यादेत्सु स्त्रिविष्टवम् अवतारेषो दशमे पश्यन् ब्रह्म द्रुहो नृवान् त्रिः सप्त कृत्व कुपिदो निः क्षत्राम करोन्महीम् तद चक्रे वेदतरोशाखां दृष्ट्वा पुं स्वल्पमेधसः नरदेवत्वमापन्नसुरकार्यचिकीर्षय समुद्रनिग्रहादीनि चक्रे कार्याण्यतः परम् एकोनविंशे विंशति मे वृष्णिषु प्राप्य जन्मनि रामकृष्णा विधिभुवो भगवाना भगवानहरद्भरम् तदकालेस्तु सन्ध्यान्ते सम्मोहाय बुद्धो नाम्राजिनसुधिकडेषु भविष्यति अध सोष्टम सन्ध्यायाम् नष्टप्रायेषु राजसु भविधा विष्णु यशसो नाम्ना कल्की अवतारा ह्यः संख्येया हरे सत्त्वनिधेर्द्विजाः मनुवेदविदो सर्वे विष्णु कला स्मृदाः पस्मा सर्गादयोजाद सम्पूज्याश्च व्रतादिना पुराणं गारुडं व्यास महापुराणे कर्मकाण्डे एतत्पुराणप्रवृत्तिसेतुनिरूपणं नाम प्रथमोऽध्यायः ॐ